वल्सायिदस्तदनु गोपगणायिधस्त्वं वल्सायिदस्तदनु गोपगणायितस्त्वं वत्सायितस्तदनु गोभगणायितस्त्वं वत्सायितस्तदनु गोपगणायितस्तम् शिख्यादिभाण्डमुरली गबलादिरूपः सिक्यादिभाण्डमुरली गवलादिरूपः सिख्यादिभाण्डमुरली गवलादिरूपः सिख्यादिभाण्डमुरली गल गवलादिरूपः प्राग्वद्विहृत्य विभिनेषु चिराय सायं प्राग्वद्विहृत्य विभिनेषु चिराय सायम् प्रागुद्विहृत्य विपिनेषु चिराय सायं प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाद बहुधा व्रज माय याद त्वं माय याध बहुधा व्रजमाय याध त्वं माय याद माय याथ बहुधा व्रज माय याथ वल्सायुधस्तदनु गोपगणायुधस्त्वमुरली गवलादिरूपः वल्सायुधस्तदनु गोपगणायुधस्त्वं शिख्यादिभाण्डमुरली गवलादिरूपः वत्सायुधस्तदनु गोपगणायुधस्त्वं सिख्यादिभाण्डमुरलि कवलादिरूपः पत्रायितस्तदनुगोपगणायितस्त्वम् शिख्यादिभाण्डमुरली कवलादिरूपः प्राग्वहृत्य विबिने शुचिराय सायं त्वम् माययाद बहुधा व्रजमाय याद प्राग्वद्विहत्कृत्य विपिने शुचिराय सायं त्वं माययाध बहुधा व्रजमाय याधा प्रागादिगत्य विपिनेषु चिराय सायं त्वं माययाद बहुधा अजमाय याद प्रग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययात बहुधा व्रजमाय याथयुदस्तदनुभगनायिदत्वं शिख्यादिबाण्डमुरली गमलादिरूपः प्राग्वहृत्य विपिनेषु चिराय सायं त्वं माययाद या बहुधा व्रजमाय या याद वत्सायिदः सदनु <स्थादन्यों> गोपगनायि तस्त्वम् शिक्यादिभाण्डमुरलीगवलादिरूपः प्राग्वद्विहृत्य विभिनेषु चिराय सायं त्वं माय याध बहुधा व्रजमाय वत्सायितस्तद धनु गोपगणायितस्वं तिक्यादिभाण्डमुरली कवलादिरूपग राघवादिहृत्य विभिन्नेषु स्थिराय सायं तोम्माय याद बहुधा भ्रजमाय याद वत्सायि तदनु गोपगणायितस्वं सिक्यादिभाण्डमुरलि गवलादिरूपः प्राग्वविहृत्य विपिनेषु चिरायसायं त्वम् माययाथ बहुधा प्रजमाययाथ वन् टु त्रि य गवलादिकृत्य स्वामे भसित्य गवनादिमयं ददानः स्वामेव शिक्य गवलादिमयं ददानः स्वामेव शिज्ञ गवलादिमय ददादः स्वामेव शिख्य गवलादिमयं दधानः भूयस्त्वमेव पशुवंसक बालरूपः भूयस्त्वमेव पशुवंसक बालरूपः भूयस्त्वमेव पशुवत्सग भूय भूयस्त्वमेव पशुवत्सक बालरूपः गोरूपिणी बिरवि गोपवधूमयीभिः गोरूपिणीभिरवि गोपमधूमयि मयिभिः गोरूपिणीबिरभि गोभवधूमयिभिः गोरूपिणीभिरपि गोपवधूमयीभिः आसादितोऽसि जननी बिरदि प्रहर्षाद् जननी बिरदि प्रस जननी बिरदि प्रहर्षात् जननी बिरति प्रहर्षात् गवलादिमयं ददानः भूयस्वमेव पशुवत्सरवः स्वामेव शिज्ञ गवलादिमयं भूयस्वमेव पशुवत्सक बालरूपः स्वोमेव शिज्ञगवलादिमय भूयस्वमेव पशुवत्सः बालरूपः त्वमेव शिक्यगवलादिमयम् दधानः भूयस्त्वमेव पशुवत्सकबालरूपः गोरूपिणि बिरभि गोपवधूमयीभिः जननी बिरदि प्रहर्षाद् गोरूपिणि गोरूपिणिभिरपि गोपवधूमयीभिः आसादितोऽसि आसा जननि बिरधि प्रहर्षात् गोरूपिणीभिरपि गोपवधूमयीभिः आसादितोऽसि जननिभिरति प्रहर्षात् स्वामिव शिक्षवदिमयं ददानः त्वमेव पशुवत्सग बालरूपः गोरूभिरभि गोपवधूमयीभिः त्वमेव शिख्य गवलादिमयं दधानग भूयस्त्वमेव पशुवत्सक बालरूपग गोरूभिनिबिरभि गो भवधूमयिभिः आसादिदोषि जननी बिरधि प्रहर्षात् त्वमेव शिख्य गवलादिमयं दधानः भूयस्त्वमेव पशुवत्सक बालरूपः गोरूपिणिभि गोरूपिणीभिरपि गोपवधूमयीभिः आसादितोऽसि जननीभिरति प्रहर्षात् वन् टु त्रि स्वामि जीवं हि कञ्चिदीयं जीवं हि जीवं हि कञ्चिदभिमान वशात् स्वकीयं जीवं हि मत्वा तनूज इति रागभरं वहन्त्यः मत्वा तनूज इति रागभरं वहन्त्यः मत्वा तनूज इति रागभरं वहन्त्यः मत्वा तनूज इति रागभरं वहन्त्यः आत्मानमेव तु भवन्तमवाप्यसूनुम् आत्मानमेव तु भवन्तमवाप्यसूनुम् आत्मानमेव तु भवन्तमवाप्यसूनुम् आत्मानमेव तु भवन्तमवाप्यसूनुम् प्रीदिं ययुर्न कियदिं ीतिं ययुर्न कियतीं वनिताश्च गावः जीवं हि कञ्चिदभिमानवशात्त्वा मत्वा तनूज इति मत्वा तनूज इति रागभर वहन्त्यः जीवम् हि कञ्चिदभिमानवशात्स्वकीयम् मत्वा तनूज इति रागभरम् वहन्त्यः आत्मानमेव तु भवन्तमवाप्यसूनुम् प्रीतिम् ययुर्न कियदीम् वनिदाच्च प्रीतिं ययुर्न कियतिं वनिताश्च गावः आत्मानमेव तु भवन्त मवाप्यसूनो प्रीद्य ययुर्न कियति वनिताश्च गावः आत्मानमेव तु भवन्तमवाप्यसूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः जीवम् हि कञ्चिदभिमाना अभिमानवशात् स्वकीयम् मत्वा तनूज इति रागबरम् वहन्त्यः आत्मानमेव तु भवन्तमवाप्यसूनुम् प्रीतिं ययुर्न कियदीं वनिदास्य गावः जीवं हि कञ्चिदभिमानवशात् स्वकीयं मत्वा तनूज इति रागभरं वहन्त्यः आत्मानमेव तु भवतिं ययुर्न कियतिं दास्य गावः जीवं के जीवं के कञ्चिदभिमान सुनूजी सागबरं वगन्द्य आत्मानमेवद् भवन्दमवाप्य सूनु प्रीतिं ययु ययुर्न कियतिं गावः जीवं हि कञ्चिदभिमानवशात् स्वकीयम् मत्वा तनूज इति रागभरम् वहन्त्यः आत्मानमेव तु भवन्तमवाप्यसूनुम् प्रीतिम् ययुर्न वनिताश्च गावः वन् टु त्रि एवम् प्रदिक्षण विजृम्भिदहर्षभार एवं प्रतिक्षण विजृम्भिद हर्षपाद एवं प्रदक्षण विजृम्भि हर्षभार एवं प्रतिक्षण विजृम्बित हर्षभार निशेषगोपगणलालित लालित भूरिमूर्तिम् निःशेषगोपगणलालित भूरिमूर्तिम् त्वामग्रजो बुबुदे किल वल्सरान्ते स्वामग्रजो बुबुधे किल वत्सरान्ते त्वामग्रजोपि बुबुदे किल वत्सरान्ते स्वामग्रजोऽपि बुबुदे किल वत्सरान्ते ब्रह्मा ब्रह्मात्मनोभिरभिमहान् युवयोर्विशेषः ब्रह्मात्मनोरभिमहान् युवयोर्विशेषः ब्रह्मात्मनोरभिमहान् युवयोर्विशेषः ब्रह्मात्मनोरभिमहान् युवयोर्विशेषः एवं प्रदीक्षण विजृम्बित हर्षभार निःशेष गोभगण लालित भूरिमूर्तिम् एवं ेवं प्रतिक्षणविजृम्बितहर्षभारनिःशेषगोपगणलालितभूरिमूर्तिम् त्वामग्रजो बिबुबुधे किल वल्सरान्ते ब्रह्मात्मनोरविमहान् युवयोर्विशेषः त्वामग्रजो वि बुबुधे किल वल्सरान्ते ब्रह्मात्मनोरविमहान् युवयोर्विशेषः त्वमग्रजो बुदे किल वत्सरान्ते ब्रह्मात्मनोरभिमग युवयोर्विशेषः त्वामग्रजोऽपि बुदे किल वत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेषः एवम् प्रदिक्षण विजृम्बितहर्षवारनिशेषगोभगणलालितभूरिमूर्तिम् त्वामग्रजोऽपि बुदे किल वत्सरान्ते ब्रह्मात्मनोरविमहान् युवयोर्विशेषः एवं प्रदक्षण विजृम्भिद हर्षभार निशेषगोभगनलालितपूरिमूर्तिं त्वामग्रजो विबुबुधे किल वत्सरान्ते ब्रह्मात्मनोरविमहान् युवयोर्विशेषः एवं प्रदक्षण विजृम्भिद हर्षभार निशेषगोभगन लालितभूरिमूर्तिम् त्वमग्रजोऽपि बुबुधे किलबुत्सरावत्सरान्ते ब्रह्मात्मनोरभि महा युवयोर्विशेषः एवम् प्रतिक्षणविजृम्बितहर्षभारनिशेषगोपगणलालितभूरिमूर्तिम् त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेषः वन् टु त्रीषः वर्षावधो नवपुरातनवल्सपालान् वर्षावधौ नव पुरातन वर्षपालान् वर्षावधौ नव पुरातन वर्षपालान् वर्षावधौ नव पुरातन वत्सपाला दृष्ट्वा विवेकमसृणे दृहिणे विमूढे दृष्ट्वा विवेकमसृणे दृहिणे विमूढे दृहिणे विमूढे दृष्ट्वा विवेकमसृणे दृहिणे द्विमूढे प्रादीदृश प्रदिनवान् मगुडाङ्गदादि प्रादीदृशप्रदिनवान् मकुडाङ्गदाधि प्रादीदृश प्रदिनवान् मगुडाङ्गदादि प्रादीदृशप्रदिनवान् ं चतुर्भुजयुजः स जलाम्बुधाभान् पोषां चतुर्भुजयुजः स जलाम्बुदाभान् चतुर्भुजयुज स जलाम्बुधाभान् दूषां दूषां चतुर्भुज युजः स जलाम्बुदाभान् स्पर्शावधो नवपुरातनवल्सबालान् दृष्ट्वा विवेकमसुणे दुहिने विमूढे वर्षावधौ नव पुरातनवत्सपालान् दृष्ट्वा विवेकमसुने दुहिणे विमूढे पुरातन वत्सपालान् दृष्ट्वा विवेकमसुने दुहिने विमूढे वर्षावधौ नव पुरातन ृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे प्रादीदृशप्रदिनवान् मकुडाङ्गदादिभूषां चतुर्भुजयुजस्स जलाम्बुधादीदृशप्रदिनवान् मकुडाङ्गदादि भूषां चतुर्भुजयुजत् स जलाम्बुदाभावान् प्रादीदृशप्रदिनवान् प्रादी प्रादी मगुडाङ्गदादि भूषा प्रा� चतुर् ृशः प्रतिनवान् वकुटाङ्गदाधीभूषांश्चतुर्भुज यज सजलाम्बुधाभाजयुज सजलाम्बुधायुज वर्षावधो दृष्ट्वा विवेके द्रुहिणे विमूढे प्रादी जयुजस्स जलाम्बुदाभा वत्सावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे दुहिणे विमूढे प्रादीदृशप्रदिनवान् मगुडाङ्गदादि कूषांश्चतुर्भुजयुजस्स जलाम्बुदाभान् वर्षावधौ नवपुरातन वत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे प्रादिदृशप्रदिनव मगुडां गदादि भूषा चतुर्भुजयुज सजलाम्बुध मान् वर्षावधौ नव पुरातन वत्सपालान् दृष्ट्वा विवेकमसृणे दृहिणे विमूढे प्रादीदृशः प्रतिनवान् वकुटाङ्गदादि भूषाश्चतुर्भुजयुजः सजलाम्बुदाभान् वन् टु त्रिगम प्रत्येकमेव कमला प्रत्येकमेव कमला परिलालिताङ्गान् प्रत्येकमेव कमला परिणालिताङ्गान् प्रत्येकमेव कमला परिलालिताङ्गान् भोगीन्द्रभोगशयनान्नयना भोगीन्द्रभोगशयनान् नयना विरामान् भोगीन्द्र भोगशयना नयनाभिरामान् भोगीन्द्र भोगशयना नयनाभिरामान् कीलानि मेलितदृशः शनकादियोगी लीलानि लीलानि लीलानि मीलितदृशस्तनकादियोगी व्यासे विदान् कमलभूर्भवदो ददर्श व्यासे वितान् कमलभूर्भवदो ददर्श व्यासेविदान् कमलभूर्भवदो ददर्श व्यासे वितान् कमलभूर्भवतो ददर्श प्रत्येकमेव यनान् नयनाभिरामान् प्रत्येकमेव कमला परिलालिदाङ्गान् भोगीन्द्रभोगशयनान् नयनाभिरामान् प्रत्येकमेव कमला परिलान् भोगेन्द्र भोगशयन नयनाभिरामान् प्रत्येकमेव कमला परिलालिताङ्गान् भोगीन्द्र भोग शयना नयनाभिरामान् शिलानि मिलितदृशः सनकारियोगी व्यासे विदान् कमलभोर्भवतो ददर्शलितदृशस्सनकारियोगी व्यासे मितान् कमलभोर्भवतो ददर्शलितदृशतनकारियोगे व्यासे विदकमल भूर्भवतो ददर्श लीलानि मीलितदृशः सनकादियोगीव्यासे वितान् कमलभूर्भवतो ददर्श प्रत्येकमेव कमलापरिरालिताङ्गान् भोगीन्द्रभोगशयनान् नयनाविरामान् लीलानि मीलितदृशःसनकादियोगिव्यासेविदान् कमलभूर्भवदो ददर्श प्रत्येकमेव कमला परिलालिदाङ्गान् भोगीन्द्र भोग शयनान् नयनाभिरामान् लीलानि मिलिदृशकादि योगी व्यासेविधान् कमलभोर्भवदो ददर्श प्रत्येकमेव कमला परिलालिदाङ्गान् भोगीन्द्र भोग शयनान् नयनाभिरामान् लीलानि मिलितदृश योगिम् व्यासेविद कमलभूर्भवतो प्रत्येकमेव कमला, प्रत्ये कमला भोगीन्द्रभोगशयना नयनाभिरामान् लीलानि मीलितदुशः सनकादियोगि व्यासे वितान् कमलभूर्भवतो ददर्श ेव कमलान् लीला कमलं कमलं दर्श नारायणागृदिमसंख्यतमाम् निरीक्ष्य नारायणाग्निमसङ्ग्यतमम् क्ष नारायण कृतिमसंख्य तमां निरीक्ष नारायण कृतिमसंख्य तमां निरीक्ष सर्वत्र सेवकमपि समवेक्ष दादा सर्वत्र सेवकमपि दादा सर्वत्र सेवकमपि दादा सर्वत्र सेवकमपि स्वम स्वमवेक्ष्य धाता मायानि मग्नहृदयो मायानि मग्नहृदयो मायानि यावदेगो नवदेगो बभूविध तदा कबलार्थपाणिः गो बभूविध तदा कबलार्थपाणिः एको बभूविद तदा कबलार्थपाणिः एको बभूवितदा कबलार्थपाणिः नारायणाकृतिमसंख्यतमां निक्ष्य सर्वत्रसेवकमपि स्वमवेक्ष ददा नारायणाकृतिमसंख्यतमां निक्ष्य निरीक्ष्य सर्वत्रसेवकमपि नारायणाकृति नारायणा कृत्रिमसङ्ख्यतमाम् निरीक्ष्य सर्वत्रसेवकमपि स्वमवेक्ष्य धाता मायानिमग्नहृदयो विम मोहया वदे गो बभूविद तदा कमलार्थपाणिः मायानिमग्नहृदयो विममोहया वदे गो विभुविद तदा कमलार्थपाणिः मायानि मग्नहृदय विमुमोह यावत् एको बहुविद तदा कबलार्थपाणिः मायानि मग्नहृदयो विमुमोह यावदेको बभूवित तदा कबलार्धपाणिः नारायणाहृदिमसङ्गतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष दे गो बभूविद तदा कमलार्थपाणिः नारायणा कृतिमसंख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वममयेष्य धादा माया निग्रहृदयो मिममोहयावद्दे गो बिहुविद तथा कपलार्थपाणिः नारायणकृतिमसंख्य तमां निरीक्ष सर्वत्र सेवकमपि स्वमवेक्ष्य दाता मायानिमग्नहृदयो विमुमोह यावत् एको नारायणा कृतिमसङ्ख्यत माम् निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य मायानिमग्नहृदयो विमुमोह यावद्देको बभूवित तदा कबलार्थपाणिः वन् नश्यन् मदे तदनु विश्वपदिं मुहुस्वां नश्यन् मदे तदनु विश्वपदिं मुहस्त्व नश्यन्मदे तदनु विश्वपति मुहुस्तां नश्यन्मदे तदनु विश्वपतिं मुहुस् मुहुस्त्वां नत्वा च नूदवधि दा दादरि नत्वा दा च नूदवधि नत्वा च नूदवदे नत्वा च नूतवति धातरि धामया ते ओतै समं प्रमुदितै प्रविशन्निकेतम् ओदै समं प्रविशन्निकेतम् ओदे समं प्रमुदितै प्रविशन्निकेतम् पोतैः प्रविशन्निकेतम् मातालयादिवविभो परिपाहिरोगाद् मातालयाधिपविभो परिभाहिरोगात् मादालयादिबविभ परिभाहिरोगात् वातालयाधिपविभो परिपाहिरोगा पश्यन् मदे तदनु विश्वपदिं मुखुस्त्वाम् नत्वा जनूतवदि धादरि धामयादे नश्यन्मते तदनु विश्वपदिं मुहुस्त्वाम् नत्वा जनुतवदि धादरि धामयाते तदनु विश्वपदे मुहुस्ता नत्वा जनुतवदे दादरि धामयादे नश्यन् तदनु विश्वपतिं मुहुस्त्वाम् नत्वा च नूतवति धातरि धामया ते ओदयि समं तै प्रविशन्निकेतं वातालयादिव विभो परिपाहिरोगाद् ओदयै समं प्रमुदितै प्रविशन्निकेतं वातालयाधिव विभो परिपाहिरोगात् ओदय समं प्रमुदितै प्रविशन्निकेतम् लयाधिपविभ परिपाहे रोगात् पोतैः समं प्रमुदितैः प्रविशन्निकेतम् वातालयाधिपविभो परिपाहिरोगात् तस्यन्मदे तदनु विश्वपदिं मुखुस्त्वाम् नत्वा जनूतवदि दादरिदामयादे पोतै समम् प्रमुदितैः प्रविशन्निकेतम् परिपाकिरोगाद् नश्यन् मदे तदनु विश्वपतिं मुहस्त्वां नत्वा च नूदवधि धादरि धामयाति पोचै समं प्रमुदितै प्रविशन्निकेतं वातालयाधिव विभो परिपाकिरोगात् नश्यन् मदे तदनु विश्वपदे नत्वा च नूदवदे दादरि धामयादे पोधै समं प्रमुदिते प्रविशन्निकेता पादालयादि भव परिवारेगात् नश्यन् मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धामया ते पोतैः समं प्रमुदितैः प्रविशन्निकेतम् वातालयाधिपविभो परिपाहिरोगात् वन् टु त्रि अमासैम् आगुर मास्परमािस् पे ओ श ओरप्राव्ये विषु वृमेके ओर्मिका मूलवा रूपः, युस्त्वं त्वम् बहुधायुस्तदनु सित्यादिभाण्डमुरलि कवलादिरूप चिराय सायं या याद बहुधाय या याद स्वामेव शिक्यगवलादिमयं दधानः हूयस्त्वमेव पशुवर्षबालरूपः गोरूबिनिभिरवि गोपमधूमयीभिः आसादिदोषिजननीभिरदिप्रहर्षात् त्वमेव शिज्ञ गवलादि वयं तद् ददानः भूयस्त्वमेव भजुवत्सबालरूपधुमयिभिः आसादिदोषि जननि विरधिप्रकर्षात् जीवं हि कञ्चिरभि कञ्जिरभिमानवशासुकीयं मत्वा तनूजै ूज इति राघबरं वगन्द्य आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं युयुर्न कियदि वनिदाश्च गावः एवं प्रदक्षण विजृम्भिद हर्षभा निश्चे गोभगण लालितम् एवं प्रदक्षिण विजृम्भि हर्षभारोभगण लालिद भूरिमूर्ति समग्रजोभिधे किलवत्सरान्धे ब्रह्मात्मनोरभिमग यो विदेशेषु विवेकमसुने दुहिने विमूढे प्रादीदृशप्रदिनवान् मगुढाङ्गदाधि चतुर्भुज युज सजलाम्बुदाभान् वर्षावधौ नव पुरातन वत्सपाल दृष्ट्वा विवेकमसुने दुहिने विमूढे प्रादीदृशप्रदिनव महुडाङ्गदादि पूषा चतुर्बुज युज सजलाम्बुधाभान् प्रत्येगमेव कमला परिलालिदाङ्गान् भोगीन्द्र भोगशयनान् नयनाभिरामान् नीलानि नी सनकादि योगी व्यासेभिधान् कमलपूर्भवदो ददर्श प्रत्येकमेव कमला परिलालिदाङ्ग <laughs> भोगीन्द्र भोगशय नयनाभिरामान् यासे विदा नारायणां निरीक्ष्य सर्वत्र सेवकमपि समवेक्ष्य ददा मया निमग्नहृदयो विमोह यावद्देगो बिभूविध सदा कमल कमलार्थपाणिः माया मां निरीश सर्वत्र सेवकमपि दादा माया निमग्नहृदयो विममोहयावत् एगो बभुविद तदा नत्वा नत्वा दाधरिं दाधरिं दे तदनु विश्वपदिं मुहस्त्वां नत्वां प्रमुदिशन्निकेतं वातालयाधिपविभोगात् नश्यन् मदे तदनु विश्वपदे नत्वा जनूदपदे दाधरि धामयादे प्रोदितमं प्रमुदिदे कविषन् नेदं वादीपविरोगा